श्रीमद्भागवत् महापुराणं दशमस्कन्ध एकोनसप्ततितमोऽध्यायः जुह्वन्तं च वितानाग्नि यजन्तं पञ्चभिर्मखै भोजयन्तं द्विजान् क्वापि भुञ्जानाम् अवशेषितं क्वापि सन्ध्यामुपासीनं जपन्तं ब्रह्मवाग्यतम् एकत्र चासि चरमभ्यां चरन्तम् अशीवत्मसु अश्वैगजैरथैः क्वापि विचरन्तं गदागृजं क्वचिक्षयानं पर्यङ्के सूयमानं च बन्दिभिः मन्त्रयन्तं च कस्मिंश्चिन्मन्त्रिभिश्चोद्धवादिभिः जलकीडारतं क्वापि वारमुख्या बलावृतम् कुत्रचिद्विधमुखेभ्यो ददतं गाशुलङ्कृताः इतिहासपुराणानि शृण्वन्तं मङ्गलानि च हसन्तं हास्यकथया कदाचित् प्रिया गृहे क्वापि धर्मं सेवमानम् अर्थकामौ च कुत्रचित् ध्यायन्तमेकमासीनं पुरुषं प्रकृते परं शुश्रू सन्तं क्वापि कामैर्भोगैश पर्यया कुर्वन्तं विग्रहं केचे सन्धिं चान्यत्र केशवं कुत्रापि सह रामेण चिन्तयन्तं सतां शिवं पुत्राणां दुहितॄणां च काले विध्युपयापनं दारैर्वरैस्तत्सदृशै कल्पयन्तं विभूतिभिः तस्थापनोपानयलैरपत्यानां महोत्सवान् वृक्षयोगेश्वरेशस्य येषां लोका विसि स्मिरें यजन्तं सकलान् देवान् क्वापि कृतुभिरुर्जितैः पुर्तियन्तं क्वचिद्धरमं को कोपा राममठाधिभिः चरन्तं मृगयां क्वापि हैमारुयसैन्धवं ग्रन्थं ततपसुन्मेध्यान् परीतं यजुपुङ्गवै अव्यक्तलिङ्गं प्रकृतिस्वनन्तः पुरगृहादिषु क्वचिच्चरन्तं योगेशं तत्तद्भाव बुभुस्य अथोवाच शिशिकेशं नारद प्रहसन्निव योगमायोदयं वेक्ष मानुषी मीशो गतिं विरामयोगमायासि दुर्दशाम् अपि मायिनां योगेश्वरात्मनिर्भाता भवत्पादनुसेवया हिमां देवा अनुजानीहि मां देवलोकान् सेयशसाप्लुतान् पर्यटामि तवोद्गायन् लीलां भुवनपावनीं श्रीभगवानुवाच ब्रह्मण् धर्मस्य वक्ताहं कर्ता तदनुमोदिता तच्छेषयल्लोकम् इममास्थितपुत्रमाखिलः श्रीशुकुवाच नित्याचरन्तं सद्धर्मान् पावनान् गृहमेधिनां तमेव सर्वगेहे शोशन्तमेकं ददर्शः कृष्णस्यानन्तवीर्यस्य योगमायामहोदयम् मुहूर्तेष्वा ऋषिर्भून् विस्मृतो जातकौतुकः इत्यर्थकामधर्मेषु कृष्णेन सद्धितात्मना सम्यक् सभाजित प्रीतयं प्रीत तमेवा नो स्मरञ्जयौ एवं मनुष्यपदवीमनुवर्तमानो नारायणोऽखिलभवाय गृहीतशक्तिः रेमेऽङ्गषोडशसहस्रवराङ्गनानां सवीटसौहृदन् निरीक्षणः सज्ष्ट यानि हविश्वविलयोद्भववृद्धिहेतु कर्माण्यनन्यविषयाणि हरिश्चकार यस्वङ्गगायन्ते शृणोत्यनुमोदते वा भक्तिर्भवेद्भगवती शपुवर्गमार्गे इमन् भागुते महाप्राणे पारं हिषां शयितायां तसंस्कन्धे उत्रार्धे कृष्णगार्हस्थदर्शनं नाम